शिवस्तोत्राणि ॐ विश्वेशं माधवं दुण्डिं दण्डपाणिं भैरवं वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकां शिवं शिवकरं शान्तम् शिवात्मानं शिवोत्तमम् शिवमार्गप्रणेतारं प्रणमामि सदाशिवम् नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्कर